अथ एकाधिकद्विशततमोऽध्यायः कर्ण उवाच दुर्योधन तव प्रज्ञा न सम्यगिति मे पाण्डवाः कुरुवर्धना पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया निग्रहीतुं तदा वीरा इहैव वर्तमानास्ते समीपे तव पार्थिव अजातपक्षा शिशवः शकिता नैव बाधितुम् जातपक्षा विदेशस्था विवृद्धा सर्वशोद्यते नोपायसाध्याः कौन्तेया ममैषामतिरच्युता न च ते व्यसनैर्योक्तुं शक्यादिष्टकृतेन च शकिताश्चेत्सवश्चैव पितृपैतामहं पदम् परस्परेण ना भेदश्च नाधातुं शक्यते एकस्यां ये रताः पत्न्यां न परस्परं न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः परिद्यूनान्वृतवती किमुताद्यमृजावतः ईप्सितैश्च गुणस्त्रीणामेकस्या बहु भर्तृता तं च प्राप्तवती कृष्णा न क्षमा